पठत संस्कृतं वदत संस्कृतं पठत संस्कृतं वदत लसतु संस्कृतं चिरं लसतु संस्कृतं चिरम् गृहे च पुनरपि गृहे च पुनरपि पठत संस्कृतं वदत संस्कृतम् पठत संस्कृतं वदत संस्कृतम् लसतु संस्कृतं चिरम् लसतु संस्कृतं चिरम् गृहे गृहे च पुनरपि गृहे गृहे च लसति यत्र भव भया लसति यत्र भव पहारि मुनिभिरार्जितम् पहारि कीर्तिरार्जिता यस्य यस्य प्रणयनात् व्यासभास कालिदास भास कालिदास बाणमुख्य कविभिः कविभिः पठत संस्कृतं वदत संस्कृतं पठत संस्कृतं वदत संस्कृतं लसतु संस्कृतं चिरम् लसतु संस्कृतं चिरम् गृहे गृहे च पुनरपि पुनरपि स्थानमूर्जितं यस्य मन्वते स्थानमूर्जितं यस्य मन्वते वाग्विचिन्तका हि वाक्क्षु वाग्विचिन्तका यस्य वीक्ष्य मधुरता यस्य वीक्ष्य मधुरता यद्विना जना नैव जानते जना नैव जानते भारतीय संस्कृतिं संस्कृति सनातनाभिधाम्बरा सनातनाभिधाम्बरा पठत संस्कृतं वदत संस्कृतं लसतु संस्कृतं चिरम् गृहे गृहे च पुनरपि गृहे गृहे च पुनरपि जयतु संस्कृतिस्तथा जयतु संस्कृतं संस्कृतिस्तथा संस्कृतस्य संस्कृतेश्च संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकूलम् प्रणयनाच्च मनुकूलम् जयतु संस्कृतम् जयतु मनुकूलम् जयतु संस्कृतम् जयतु जयतु जयतु संस्कृतं जयतु जयतु मनुकुलम् जयतु जयतु संस्कृतं जयतु जयतु मनुकुलम् जयतु जयतु संस्कृतं जयतु जयतु मनुकुलम् जयतु जयतु संस्कृतं जयतु जयतु मनुकुलम् पठत संस्कृतं मदत संस्कृतम् पठत संस्कृतं मदत संस्कृतम् लसतु संस्कृतं चिरं लसतु संस्कृतं गृहे गृहे च पुनरपि गृहे गृहे च पुनरपि गृहे गृहे च पुनरपि गृहे गृहे च पुनरपि गृहे गृहे च पुनरपि